अथर्व्वेदे सप्तमाष्टके द्वितीयोऽध्यायः ओन्द्यसो रस्रयस्वसा रोजामयस्पतिम् महामिन्दुम् महीयुवाः पवमानरुचारुचा देवो देवेभ्यस्परि विश्वापशून्या विश आपवमानसुष्टुतिम् वृष्टिम् विशे पवस्व संयतम् वृषाह्यसि भानुना आद्युमन्तम् ताहवामहे पवमानस्वाध्याः आपवस्व सुवीर्यम् मन्दमानस्वायुध इहोऽस्मिन्नवागहि यदद्भिः परिषिच्यसे ए महे सहस्रचक्षसे यस्य वर्णम् अधुष्टुतम् हरिम् हिन्वन्त्यद्रिभिः इन्दुमिन्द्राय भीतये तस्य ते वाजिनो अभयम् विश्वाधना आनिजिजुषाः सखि त्वमावृणीमहे पृषा आपवस्वधारया मरुत्वते च मत्सरः विश्वादथा आन ओजसा न्ता आ धर्ता रमोऽण्यो ओः पवमानस्वदृशम् अयाचित्तो विपानया हरिः पवस्वधारय इडम् वाजे एषु चोदय आन इन्दो महीमिषम् पवस्व विश्वदर्शदः अस्मभ्यम् सोमगातुवित् आ कलशा एन्द्रस्य भीतये बिषा यस्य ते मध्यम् रसन्तिव्रन्दुहन्तिद्रिभिः स पवस्वाभिमातिहा राजा विनियते पवमानो मनावधि अन्तरिक्षेण जातवे आ न इन्दोषतग्विनङ्गवाम् पोषम् स्वश्यम् वा भगतिभूतये आनः सोमसहो जुवो ओ रूपम् न वर्चसे भर सुष्वाणो देववीहीतये अर्षा आ सोमद्भिमत्तमोऽभिद्रोणा आनिरोरुवत् शीलन्त्येनोनयो अप्सा इन्द्राय वाजवे वरुणाय मरुद्भ्याः सोमो ओ अर्षति विष्णवे इषम् तोकाय नोदधदस्मभ्यम् सोमविश्वराः आपवस्वसहस्रिणम् ये सोमासः परावति ये अर्वाति सुन्विरे ये वादः शर्यणावते य आधीकेषु कृत्तसु मध्ये तस्याना ये वाजनेषु पञ्चसु ेनो आवृष्टिम् दिवस्परिपवन् पामासुवीर्यम् सुमाना देवास इन्दवः पवते हर्यतो हरिर्गृणानो जमदग्निना हिन्वानो गोरधि त्वजे प्रशुक्रासोपयोजो हिन्वानासो न सप्तयः श्रीणाना तन्ता आसुतेष्वा भो हिन्द्विरे देवदातये सपवस्वारया आरुच आ ते दक्षम् रजोभुवम् बन्ध्रिमद्यावृणीमहे पान्तमा पुरस्पृहम् आमन्द्रमावरेण्यमाविप्रमामनीषिणम् पान्तमापुरस्पृहम् आरयिमासु तेतु नमासुक्रतो धनोऽश्वा पुरस्पृहम् पवस्व विश्वदर्शनेभि विश्वा आनि काव्याः सखा सखिभ्य एव्याः ताभ्याम् विश्वस्य राजश्रिये पवमानधामनि रतीचीसोमतस्थतोः परिधामा आनियानि ते त्वम् सोऽमासिविश्वताः पवमानऋतुभिः कवे पवस्व जनयन्निशोऽभि विश्वा अनिवार्या सखा सखिभ्य ऊतये तव शुक्रासो अर्चयो अवः वितन्वते पवित्रम् सोमधामभिः तवेमे सप्त सिन्धवः प्रशिषम् सोम सिस्रते तुभ्यम् धावन्ति धेनवाः रसो आ नो अक्षितिश्रवाः समुत्त्वाधेभिरस्वरन् हिन्वदे सप्तजामयाः विप्रमाया विवस्वतः मृजन्दित्वा समग्रुहो व्ये धीरावधिष्वणि रेभो यसेवने पवमानस्य देववेवाधिन् सर्गाः असृक्षत अर्वन्तो न अच्छाकोशम् अधुश्च्युतमसृग्रम्वारे ए अव्यये ए अवा आ वसन्तधीतया अच्छा आसमुद्रमिन्दवोऽस्तङ्गा वो न धेनवाः अग्मन्द्रतस्य योनिमा रण इन्दो महेरण आवो अर्षन्ति सिन्धवः विष्टये महे सोमदृचक्षसे एन्द्रस्य जठरे विश महान् असिषो मज्येष्ठ उग्राणामिन्दरो जिष्ठः युद्ध्वासन् शश्वज्जिवेश य उग्रेभ्यश्चिरो जियाभ्यश्चिच्छूरतरः क्षूरिताभ्यश्चिन्नम्भेयान् ं सो ॐ मसूर एष स्तोकस्य साता तनूनाम् वृणीमहे एष्याय वृणीमहेयुज्याय अग्न आयोपवसहासुवोर्जविषञ्चनः आरेवाधस्वदुच्छुनाम् अग्निरचिः पवमानः पाञ्चजन्यः पुरोहितः मे महे महागजम् अग्ने पवः स्वपा अस्मे मर्त्यः सुवीर्यम् दधद्रयिम् मयि पोषम् पवमानोऽतिश्रियोऽभ्यर्षति सुष्टुतिम् सूरो न विश्वदर्शतः समर्षमृदा न आजुभिः प्रयस्वान्प्रयसेहितः इन्दुरत्यो अविचक्षणः पवमानऋतम् कृष्णातमा अं श्रिजङ्घनत् पवमानस्य जङ्घतो हरेश्चन्द्रा असृक्षत जीरा अजिरशो ओजिषः पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः हरिश्चन्द्रो मरुद्गणः पवमानोऽभ्यश्नवद्रष्टिभिर्वाजसा तमः दधुबीजम् प्रसुभान इन्दुरक्षाः पवित्रमत्यव्ययम् पुनान इन्दुरिन्द्रमा एष सोमो अधिप्रतिगवाङ्ग्रीडत्यद्रिभिः इन्द्रम् मदा आयजोत् यस्य ते द्युम्नवत्पयः पवमानाभृतम् दिरः तेन नो त्वम् सुतो नमागमो दधन्दान्वच्छरिन्तमः इन्द्राय सूरिरन्धसा त्वम् सुष्वाणो अद्रिभिरभ्यर्षकनिक्रदत् द्युमन्तम् शुष्णमुत्तमम् इन्दुर्हिन्वा नो अर्षसि तिरो वाराण्यं व्ययाः हरिर्वाजमतिक्रदत् इन्दोऽव्यमर्षसि विश्रवा अंसि विसौभगा विवाजा न इन्दो शतग्नम् रयिङ्गोमन्तमश्विनम् भरा आ सोमसहस्रिणम् पवमानास इन्द्रवस्तिरः पवित्रपाशवाः इन्द्रय्यामेऽभिराशत प्रगुहः सोम्योरस इन्दुरिन्द्राय पूर्यः आयुः पवत आय मे हिन्वन्ति सूरमुस्रयः पवमानम् मधुष्टुतम् अभिगिरासमस्वरन् अभितानो अजाश्वः पूषायामनि यामनि या आभक्षत्कन्या आसुनः अयम् सोमः कपद्दिने घृतन्नपवते मधु आभक्षत्कन्या आसुनः अयम् त आघृणे सुतो घृतन्नपवते शुचि आभक्षत्कन्या आसुनः वाचो जन्तुः कवीनाम् ववस्वसो मधारया देवेषु रत्नथा असि आ कलशे एषु आहते श्येनो ब्रह्म परिप्रसो ओम ते रसो सज्जि कलशे एषुतः श्ये नो न तर्तो अर्षते पवस्पसोम मन्दयन्निन्द्राजमधु मत्तमः रथा इव ते सुतासो ओमदिन्तमाः शुक्रावायुमसृक्षत ग्राम्णा आतुम् नो अभिष्टुतः पवित्रम् सोमगच्छसि दधत् स्तोत्रे सुवीर्यम् एष तुन्नो अभिष्टुतः पवित्रमतिगाहते रक्षोहावारमव्ययम् यदन्ति यच्च गोरके विन्दति मामिह पवमानवितज्जहि अवमानः सो अद्य नः पवित्रे एण वितर्षणिः यः पोता स पुनातु नः यत्ते ए पवित्रमर्चिष्यग्ने विततमन्तरा ब्रह्म तेन पुनीहिनः यत्ते ए पवित्रमर्चिवदग्ने तेन पुनीहिनः ब्रह्मसवैः पुनीहिनः उभाभ्याहम् येव सवितः पवित्रे एण सवेन च माम् पुनीहि विश्वताः रघिष्पन्दे एव सवितर्वर्षिष्ठैः सोमधामभिः अग्ने दक्षैः पुनीहिनः पुनन्तु विश्वे ए देवाः पुनीतमाजातवेदः पुनीहिमा प्रप्यायस्वप्रस्यन्दस्व सोम विश्वे उपप्रियम् परिप्लतयुवानमाहुते वृथम् अगन्म बिभ्रतो नमाः अलाय्यस्य परशुन्ननाशतमापवस्वदेव सोम आकुञ्चिदेपदे एव सोम यः पा आपमानी रसं संहृतम् रसम् सर्वम् स पूतमश्नातिस्वदितम् आपमानीर्य अध्येत्य ऋषिभिः संहृतम् रसम् तस्मै सरस्वती दुहे क्षीरम् सिर्मधोदकम् पापमाने स्वस्त्यजने सुदुःखाहि कृतश्च्युताः ऋषिभिः संहृतो रसो ब्राह्मणेश्वरम् तिलमम् पापमानेर्दिशन्तुल इमम् लोकमथो अमुम् कामान् समर्थयन्तु नो देवैर्देवैः समाहिताः येन देवाः पवित्रेणात्मानम् पुनते सदा तेन सहस्रधारेण पावमान्यः पुनन्तु माम् राजापत्यम् पवित्रम् शतोऽद्यामम् हिरण्यम् तेन ब्रह्मविदो वयम् भूतम् ब्रह्म पुनीमहे इन्द्रः सुनीति सहमाः पुनातु सोमः स्वस्त्या वरुणः समीच्याः यमो राजाः प्रमृणाभिः पुनातु मा जातवेदावोर्जयन् च पुनातु ऋषयस्तु तपस्ते पुः सर्वे स्वर्गजिगीषवः तपसस्तपसो क्रियन्तु पावमानेन रजोऽ यन्मे गर्भेऽवसतः पापमुग्रञ्ज्यायमानस्य जैञ्जिरन्य जातस्य च यच्चा आपि च वर्धरो मे दत्ता आवमानेभिरहम् पुरामि मातापित्रोर्यन्नकृतम् वचो ओमे यत्स्था आवरञ्जङ्गममा बभूव विश्वस्य तत्प्रहवितनम् वचो ओमेतत्ता आवमानेभिरहम् पुरामि गोघ्नात्तस्करत्वात् श्रीवधाद्यच्च किल्बिषम् पापगञ्चतरणेभ्यस्तत्पा आपमानेभिरहम्बुराणि ब्रह्मवधात् सुरा आपानात् स्वर्णस्तेजादृशधिगमनमैथुनसङ्गमात् गुरोर्दाराधिगमनाच्च तत्पा आपमानेभिरहम्बुराणि पालघ्नान् मातृद्रुवधाद्भूमिरस्करात् सर्ववर्णगमनमैथुनसङ्गमात् आपेभ्यश्च प्रतिग्रहात् सद्यः प्रहरति सर्वदुष्कृतम् दत्वा आपमानेभिरहम् पुनामि क्रयविक्रयाद् योनिदोषाद्भक्षाद्भोज्यात्प्रतिग्रहात् असम्भोजनाच्चापि नृशम् सन्तत्वा आपमानेभिरहम् पुरामि दुर्यम् दुरधीनम् पापै यश्चाज्ञानतो कृतम् अयाचिताश्चासञ्याद्यास्तपा आपमानेभिरहम् पुनामि अमन्त्रामन्त्रैः यत्किञ्चिद्धूयते चाशने संवत्सरकृतम् पापम् दत्ता आपमानेभिरहम् पुरामि मृतस्य यो नयो मृतस्य धाम विश्वा देवेभ्यः पुण्यगन्धाः ता न आपः प्रवहन्तु पापम् शुद्धा गच्छामि सुकृतामुलोकम् दत्ता आपमानेभिरहम् पुरामि पमाने स्वस्त्यजनेयाभिर्गच्छति नान्दनम् पुण्यांश्च भक्षान् भक्षयत्यमृतत्वम् च गच्छति पावमानेः पितॄन् देवान् ध्यायेद्यश्च सरस्वतीम् पितॄंस्तस्योपवर्धेतत् क्षीरम् सर्पिर्मधोदकम् पावमानम् परम् ब्रह्म शुक्रम् ज्योतिः सनातनम् ऋषेंस्तस्योपतिष्ठेतत्क्षीरम् सर्पिर्मधोदकम् पावमानं ब्रह्म ये पठन्ति मनीषिणः सप्त जन्म भवेद् विप्रोधनाढ्यो वेदपारकः दशोत्तराणिैव पावहानि शतानि षट् एतद्युह्वम् जपेन्मन्त्रम् घोरमृत्युभयम् हरेत। एतत् पुण्यम् वापहरम् रोनमृत्युभयापहम् पठताम् शृण्वतांश्चैव ददाति परमाङ्गतिम् प्रदेवमच्छामधुमन्तबिन्दवो शिष्यदन्त गाव आनधेनवाह बर्हिषदो वतनावन्त ऊधभिः परिसृतमुश्रियाणियन्तिरे सरोरुवदभिपूर्वाः अधिक्रदुपारुह कथयन् स्वादते तिरः पवित्रं पर्यम् दुरुज्रजो निशर्या आणिदधते देव आवरम् वियो ममेयन्या आसंयते मतः साकम् वृथापयसा पिन्वदक्षिता महे अपारे रजसे बिबे विरभिव्रजम् दक्षितम् वाज आदे समातला आविचरन् वाजयन्नपः प्रमेधिरः स्वधया पदम् अंशुर्यवेनपि पिशे जतो दृभिः सञ्जामिभिर्नसते रक्षते शिराः संरक्ष्येण मनसा जायते कविरतस्य गर्भो निहितो यमापरः यूना आहसन्ता प्रथमम् विज्जतुर्गुहा आहितञ्जनिमने ममुद्यतम् मन्ध्रस्य रूपम् विविदुर्मनीषिणश्येनो यदन्धो अपरत्परापताः र्जयन्त सुृहन्नदेष्वाम् उशन्तमंशुम् पर्यन्तमृग्भियम् त्वाम्रजन्ति रषयोषणः सुतम् सोमहर्षिभिर्मतिभिर्जेतिभिर्हितम् अं योपारेभिरुतदे महोतिभिर्नृभिर्यतो वाजमादर्शि सादये परिप्रयन्तम् वैयम् सुशंसतम् सोमम् मनीशा अभ्यनोषतस्तु भाः यो धारया मधुमाङ् कूर्मिणा आदिव इयर्ति वाचन्द्रविषाणमर्त्यः अयम् दिव इयर्ति विश्वमारजः सोमः पुनारः कलशेषु सीदति अद्भिर्गोभिर्मृज्यते अद्रिभिः सुतः पुनार इन्दुर्वरिवोर्यलप्रियम् एवानः सोम परिषिच्यमा आनो वर्योदधच्चित्रतमम् भवस्व अद्वेषेद्यावा आ पृथिवी हुवे वा आ धत्तरजिभस्मे सुवीरम् इषुर्न सन्तम् प्रतिधीयते मतिर्वत्सो न मातुरुपसर्जूधनि पुरुधा आरेवधुहे अग्र आयत्यस्य उम्रतेष्वपि सोम इष्यते उपो सिच्यते मधुमन्त्राजनी चोदते अन्तरासनि अवमानः सन्तनिः प्रघ्नतामिमधुमान् रप्सः परिवारमर्षति अव्ये एव धूयुः पवते परित्वति श्रत्स्नृते रप्तेरतितेरृतञते हरिरक्राण्यजतः संयतो महिषो नशो ओभते मोक्षाभिमादिर्प्रतियन्ति धेनवो देवस्य देवीरुपयन्ति निष्कृतम् अत्यक्रवीरर्जुनम् वारमव्ययवत्कन्न धिक्तम् परिसोमो अन्यत अवृक्ते नरुषदावाससाहलिलमर्त्यो निजानः परियत दिवःपृष्ठम् बर्हणा निर्णिजे कृतोपस्तरणम् जम्बोर्नभस्मरणम् सूर्यस्येव रश्मयोद्रावयित् नवो वत्सरासः प्रसुपः सागमीरते तन्तुम् रतम् आशवो स आशभो नेन्द्रादृते पव रे धाम किञ्चन सिन्धो ओरिव प्रवणे निम्न आशभो वृषच्युतामदा आशो गातुमा आशत शर्णो निवेशे द्विपदे चतुष्पदेऽस्मेवाजाः सोम तिष्ठन्तु पृष्टयाः आनः पवस्वसुमद्धिरण्यवदश्वा आ वद्गोमद्यवत्सुवीर्यम् यूयम् हि सो ओम पितरोमस्थन दिवो मूर्धानप्रस्थिता वयस्कृताः एते सोमाः पवमारा स इन्द्रम् इव प्रययुः सातिमच्छ सुताः पवित्रपति यन्त्यव्यम् हरित्रे भव्रिम् हरितो वृष्टिमच्छा इन्द्र इन्द्राय बृहते पवस्व सुमृणीको अनपद्यो रिषादा आहरा आ चन्द्राणि गृणते वसूनि देवैर्द्या आपृथिवी प्रावतन्नः त्रिरस्मै सप्तधेनवो दुदुह्रे सत्या माजिलम् पूर्व्येव्यो चत्वार्य्याभुवनानिर्णिजे चारुणिचक्रेजधृतैरवर्धत सभिक्षमाणो अमृतस्य चारुण उभे द्यावा काव्ये एनाविशश्रथे ते जिष्ठा अपो मह्मनापरिव्यत यदि एदेवस्य श्रवसासदो विदुः ते अस्य सन्तु केतवो मृत्यपोदाभ्यासो जनुषे उभे अनो येभिर्नम्णा च देव्या आ च पुनत आदिद्राजा आनम् मनना आ अगृह्णत समृज्यमा आनो दशभिः सुकर्मभिः प्रमध्यमासु मातृषु प्रवेशदा मृतानि पानो अमृतस्य चारुण उभे नृतक्षा चा अनुपश्यते विशौ समरमृदान इन्द्रिया यथाय स ओभे अन्तारोदसेहर्षदे हितः दृषाशुष्मेण पातते विदुर्म देदिशानश्चर्यवेपशुरुः स मातरानददृशान उश्रियो नानददेति मरुतामिव स्मनः दानन्दतम् प्रथमै यत्स्वर्णरम् प्रशस्तजेकमरुणीतसुक्रतोति भीमो वृषभस्तविष्यजा शृङ्गे शिशा नोहरिणे विचक्षणः आयोनिम् सोमः सुकृतम् निषेदति गव्यजे त्वग्भवति गम्यजे श्रुतिः पुनानस्तन्मदेपसमम् ये हरिण्यधाविष्टसानवे जुष्टो ओमित्राय वरुणाय वायवे त्रिधातु मधु क्रियते सुकर्मभिः पवस्वसोमदेव वीतये वृषेन्द्रस्य हार्दिसोमधानमाविश पुराणो ओ बाधाद्दुरितादिपारय क्षेत्रविद्धिदिश आह आविपृच्छते हितो न सप्तिरभिभाजमर्षेन्द्रस्येन्दो जठरमापवः स नापा न सिन्धुमतिपर्षि विद्वाञ्चोरो न यध्यन्नवनो निज स्वाः आ दक्षिणा सृज्यते परिरोपशम् कृणुते नभस्पज उपस्थिरेतम्बो ओर्ब्रह्म निर्णिजे कृष्ट्येव शोषते एतिरोरुपदूर्या अम्बर्णम् निर्णीते अस्य तम् चहादिव्रिम् पितुरेति निष्कृतमुपप्लुतम् कृणुते निर्णियन्तना अद्रिभिः श्रुतः पपते कभस्त्योरवृषायते समो ओदते न सते साधते गिराने एक्ते अप्सु यजते परे एमणि परिद्युक्षम् सहसः पर्वतावृथम् मद्धस्यन्ति हर्म्यस्य सक्षणि आयस्मिन् गावः सु हुताद ऊधनि मूर्धन् श्रीमण्ड्यग्रियम् वरे एमभिः समेरथन्न हुरिजो ओरहेश तदशश्वसा द्विगादुपज्रयति गोरबीज्यम् परञ्जतस्य मतुधा अजेजन श्येलो नयोनिंसदनम् धिया कृतम् आसदम् देव एषति येरिणन्ति बर्हि प्रियङ्गिरा स्पो न देवाम् अप्येति यज्ञाः परा व्यक्तो अरुषो दिवः कविर्वृषा आदृपृष्ठो सहस्रणेतिर्यतिः पराजते ऐ रेभो न पूर्वेरुढसो विराजते तेषम् रूपम् कृणुते वर्णो अस्य स यत्राशयत्समृता सेषति सृषः अप्सायादिश्वतै व्यञ्जनम् संसृष्टुतेन स ते, ते सङ्गो दिव्यः सुपर्णोपदक्षदक्षाम् सोमः परिक्रतुना पश्यते चाः हरिम् रुजन्त्य रुषो न अज्यते उरुर्वाच मेरयति हिन्वते एमते पुरुष्टुतस्य कति परिप्रियाः साकम् वदन्ति इन्द्रस्य सोमम् ्रजन्ति सुगभस्तजो नरः सनि एडा काम्यम् मधो अरममाणो अत्येदिगा अभिसूर्यस्य प्रियम् दुहितुस्थिरोरवम् अन्वस्थैजोषमभरद्भिनम् गृहः सन्दयेभिः स्वसृभिः क्षेतिजाविभिः नृधो ओतो अद्रिषुतो बर्हिषि प्रियः पतिर्गवाम् पुरन्धिवान्मनुषो यज्ञसाधनश्रुतिर्धिरा पवते सोम इन्द्रते नृपाहुभ्या अञ्जोधितो धारया सुतोऽनुष्प्रथम् पवते सोम इन्द्रते आप्राःक्रतोऽमजैरद्धरे मतेर्वेर्नदृषच्छम्भो ओरासदद्धरीः अंसुन्दुहन्ति स्तरयन्तपक्षितम् कविम् कवयोपसो ओ मनीषिणाः मे गावो अमतयो ओ यन्ति संयतऋतस्य यो नासने पुनर्भुगाः नामा आपृथिव्याधरुणो अहो दिवो ओ, ओ, ओ, ओ, ओ, ओ मूर्मौ सिन्धुष्वन्तरुक्षितः इन्द्रस्य वज्रो अवृषभो विभो वसु सोमो वपरिपार्थिवम् रजस्तोत्रे शिक्षन्नाथोन्वते च सुकृतो मानो निर्भाग्वसुनः मानो कृशो रयिम् विषङ्गम् बहुलम् वसीमहि आतु न इन्दो शतदात्पश्यम् सहस्रदातुपशुपद्धिरण्यवत् उपमास्वबृहती देवतीरिषोधि स्तोत्रस्य पवमाननो ्रक्वे द्रप्सस्य धमतः समस्परम् धृतस्य योरासमनन्तनाभयः त्रेन्समूर्ध्वो असुरश्चक्र आरभे सत्यस्य नाभः सुकृतमपि परम् सम्यक् सम्यम् चो ओ महिषा अहेशतसिन्धो ओर्मावधिवेना अपि विपन् मधोर्धारा अभिर्जनयन्तो अर्कमि क्रियाविन्द्रस्य पवित्रवन्तः परिवाचमासते पितैषा रत्नो अभिरक्षतिम् रतम् महः समुद्रम् वरुणस्तिरोदधे इच्छे ए गुर्धरुणे एष्वारभम् सहस्रधारे पदे समस्परम् नियो नाके मधुरिक्वा असश्च ताः पदे पदे पाशिनः सन्ति पितृनु मातुरध्याये समस्वरम् ऋजाशोचन्तः सन्तहन्तो औरतान् इन्द्रद्विष्टामपधमन्ति माययात्पतमसि क्लीम् भूमनो दिपस्परे प्रत्नान्मानादध्याये समस्वरम् शोकयन्त्रासोरभसस्य मन्तवः अपा आ रक्षासो बधिरा अहासतऋतस्य ग्रन्थान्नतरन्ति दुष्कृताः सहस्रधारे वितते पवित्र आवाचम् पुनन्ति कवयो मनीषिणाः रुद्रास एषामि शिरासो अद्रुहस्पशस्पञ्चः सुदृशो ऋतक्षसः ऋतस्य गोपानदभाय शुक्रतुस्त्रेश पवित्रा हृद्या विद्वान् स विश्वा भुवनाभिपश्यत्य वाजुष्टान् विध्यति कर्ते औरतान् व्रतस्य तन्तुर्भिदतः पवित्र आजिह्वाजा अग्रे वरुणस्य माजया धीराश्चित्तत्समिनक्षन्त आशतात्रा आकर्तमवपदात्य प्रभोः शिशुर्न जातोऽपचक्रतद्वदे स्वा अर्यद्वाज्यरुषः शिषा आसति दिवो रेतसा सचते पयो वृथा समे महे सुमते शम्मसप्रथाः दिवोयःकम्भो सेमे महेरोदसे यक्षतावृता आसमे चीनेदा आधारसमिषः कविः ईशेयो वृष्टेरित उस्रियो वृषापान्नेताय इत ऊरिरग्मियाः आत्मन्वन्नभो दुह्यते घटम् पयरुतस्य नाभिरवृतम् भी विचारयते समीचीनाः सुदानवः प्रीणन्ति तन्नरोहितमवमेहन्ति पेरवः अरा आवेदंशुः सजमान ऊर्मिणे भाव्या अम् मनुषे पिन्वतिपचम् तथा आतिगर्भमदिते रूपस्थ आयेन तोकञ्चतनयम् च धामहे सहस्रधारे पता असश्चतस्तृतीये सन्तु रजसि प्रजावतेः चतस्रो नापो निहिता अवो दिवो हविर्भरन्त्यमृतम् गृतश्च्युताः श्वेतम् रूपम् गृणुते यच्छिया आसति सोमो ओवेड्वाम् असुरो वेदभूमनः िया शमेः स च ते सेमभिप्रवद्दिवस्कवन्धमवदर्श रुद्रिणम् अधश्वेतङ्गलशङ्गोऽभिरक्तम् कार्ष्मन्नावाज्यक्रमेत्स सवान् आहिन्विधेपनसादेभयन्तः कक्षेप ते शतहिमायकोनाम् अद्धिः सोऽमपकृधानस्य ते रसोऽपारम् समृज्यमानः कविभिर्मरितमस्वदस्वेन्द्राय पवमानपीतरे अभिप्रियाणि पवते च नो हितो नामानि यक्वो अभियेषु वर्धते आसूर्यस्य बृहतो बृहन्नधिरथम् विश्वम् च मरुहद्विजक्षणः रथस्य जिह्वापवते मधुप्रियम् भक्तापतिर्भियोजो अस्या अदाभ्यः दधा आदिपुत्रः पित्रोरपेच्या अन्नामतृतीयमधिरोचने दिवः अपद्युतानः कलशा अङ्गजक्रतन्द्रिभिर्षये मानः कोश आहिरण् अभिमृतस्य दोहना आ अनूशताधित्रिपृष्ठपुषसोभिरा आजति अद्रिभिः सुतो मतिभिश्च नो नितः प्ररोचयन्द्रोदसे मातरा रोमाण्यम् आ समयाभिधा आवतिमधोर्धारापिमानादिवे दिवे, दिवे परिसोमप्रथन्रा स्वस्तजेतृभिः पुरा नो अपि वा आसजाशिरम् एते पदा आ तवे मघम् इति सप्तमाष्टके द्वितीयोऽध्यायः